हरि श्री सीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे पञ्चविंश सर्गः रावणेन निगूढतया शुकतारणयोर्वानरसेनायां प्रेषणम् विभीषणेन तयोर्निग्रहणम् श्रीराम कृपया कृपया मोक्षणम् तदीयम् सन्देशमाताय ताभ्याम् लङ्काम् गत्वा रावणस्य प्रबोधनञ्च सबले सागरम् तीर्णे रामे दश रथात्मजे अमाप्यौ रावण श्रीमान् अब्रवीत् शुकसारणो समग्रम् सागरम् तीर्णम् दुस्तरम् वानरम् बलम् अभूतपूर्वम् रामेण सागरे सेतुबन्धनम् सागरे सेतुबन्धन् तम् न श्रद्दध्याम् कथञ्चन अवश्यं चापि सङ्ख्येयम् तन्मया वानरम् बलम् भवन्तो वानरम् सैन्यम् प्रविश्यानुपलक्षित परिमाणम् च वीर्यम् च ये च मुख्याः मन्त्रिणो ये रामस्य सुग्रीवस्य च सम्मतः ये पूर्वम् अभिवर्तन्ते ये च शूराः प्लवङ्गमः स सागरे सलिलार्णवे निवेशञ्च यथा तेषाम् वानराणाम् आत्मनाम् रामस्य व्यवसायम् च वीर्यम् प्रहरणानि च लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथ कश्च सेनापतिस्तेषाम् वानराणाम् आत्मनम् तच्च ज्ञात्वा यथा शीघ्रम् भागन्तुमर्हथ इति पतिः समादिष्टौ राक्षसौ शुभसारणो हरिरूपधरो वीरो प्रविष्टो वानरम् बलम् तत सैन्यं सैन्यम् अचिन्त्यम् लो मर्षणम् सङ्ख्यातुम् नाधिगच्छेताम् तदा तौ शुभसारणो तत्स्थितम् पर्वताग्रेषु निर्धरेषु गुहासु समुद्रस्य च तीरेषु वनेषु पवनेषु च तरमाणम् च तीर्णम् च तत्तु कामम् च सर्वश हे निविष्टम् निविशश्चैव भीमनादम् महबलम् तद्बलार्णवमक्षोभ्यम् ददृशा निशाचरौ तौ ददर्श प्रतिच्छन्नो विभीषणः आचक्षे स रामाय गृहीत्वा शुकसारणौ तस्येतो राक्षसेन्द्रस्य मन्त्रिणो शुकसारणौ लङ्काया समनुप्राप्तौ चारो परपुरञ्जये तव दृष्ट्वा व्यथितो रामम् निराशौ जीविते तथा कृताञ्जलि पुटो वचनम् चेदमोचतुः आवां ह्यायगतो सौम्य रावणप्रहितौ भव परिज्ञातुम् बलम् सर्वम् तदिदं रघुनन्दने तयो सह वचनम् श्रुत्वा रामो दश रथात्मजः अब्रवीत्रः सन् वाक्यम् सर्वभूतहिते रथः यदि दृष्टम् बलम् सर्वम् वयं वा सुसमाहितः यथोक्तं वा कृतम् कार्यम् छन्दतः प्रतिगम्यताम् अथ किञ्चिदृष्टं वा भूयस्तद्द्रष्टुमर्हथ विभीषणो वा कर्ष्णेन पुनश्चन्दर्शयिष्यति नचेदं चेदम् प्राप्य भेतव्यं जीवितं प्रति न्यस्तशस्त्रो गृहीतो च न दूतो वधमर्हथ प्रच्छन्नो च विमुञ्चेमौ चारो रात्रिं च र शत्रुपक्ष सततम् विभीषण विकर्षिणौ प्रविश महतीं लङ्काम् भवद्भ्याम् धन दन दनुजहे वक्तव्यो रक्ष साम्राज यथोक्तम् वचनं मम यद्बलं तं समाश्रित्य सीता मे हृतवानसि तद्दर्शय यथा कामम् ससैन्यश्च सबान्धवः षट्काल्ये नगरीं लङ्काम् स्वप्राकारां सतोरणाम् रक्षसां च बलं पश्य शरीर्विध्वंसितं मया क्रोधम् भीमम् अहम् मोक्ष्ये ससैन्ये त्वयि रावण षट्काल्ये वज्रम् दानवेश्विववासवह वासवः इति प्रति समादिष्टौ राक्षसौ शुकसारणौ जेति प्रतिनन्द्येनम् राघवम् धर्मवत्सलम् आगम्य नगरीम् लङ्काम् अभ्रूताम् राक्षसाधिपम् विभीषण गृहीतौ तु वधार्यम् राक्षसेश्वरे दृष्ट्वा धर्मात्मना मुक्तौ रामेणामित तेजसा एकस्थानगता यत्र चत्वारः पुरुषश्च भये लोकपाल समाशूर कृतास्त्राय दृढविक्रमः रामो दास्य श्रीमान् लक्ष्मणश्च विभीषणः सुग्रीवश्च महातेज महेन्द्र समविक्रमः एते शक्ता पुरीं स प्राकाराम् उत्पाट्य सङ्क्रामयितुम् सर्वे तिष्ठन्तु वानरः यादृशं तद्धि रूपं रूपम् प्रहरणानि च वधिष्यति पुरीम् लाम् एकस्तिष्ठन्तु ते त्रय राम लक्ष्मणगुप्ता सा सुग्रीवेण च वाहिने। बभूव दूर्दशतर सर्वैरपि सुरासुरे प्रवृष्टयोधा महात्मनां वनौकसां सम्प्रति योद्धुमिच्छताम् अलं विरोधेन शमो विधीयताम् स्वदीयतां दाशरथाय मैथिली इत्याशी श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे पञ्चविंश सर्गे